श्रीमद्भागवत् महापुराणं दसं स्कन्ध एकषष्टितमोऽध्यायः राजोवाच कथं रुक्म्यरिपुत्राय प्रादाद्विहितरं युधि कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते एतदाख्याहि मे विद्वन्द्विसो वैवाहिकम् इथ अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम् विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः शेषो उवाच वृतः स्वयंवरे साक्षात् अनङ्गोऽङ्गयुतस्तया राज्ञ समेतान् निर्जित्य जहारैकरथो रुक्मे कृष्णावमानितः व्यतरद्भागिनेयाय सुतां रुक्मिण्यास्तनियां राजन् कृतुवर्मसुतो बले उपयेमे विशालाक्षिं कन्यां चारुमतिं किलं। दौहित्राया निरुद्धाय पौत्रिं रुक्म्या ददाधरे रोचनां बद्धभैरोषेश्वसूं प्रियचिकीर्षया जानन्न धर्मं तद्यौनं स्नेहपाशानुबन्धनः तस्मिन्नभ्युदये राजन् रुक्मिली रामकेशवौ पुरं भोजकटं जुग्मुः साम्ब प्रद्युम् न कादयः तस्मिन् वृत्त उद्वाहे कालिङ्गप्रमुखालपाः दीप्तास्ते रुक्मिलं प्रोचुर्बलमक्षय विनिर्जय अनक्षज्ञो हयम् राजन्नपि शतं सहस्रमयुतं रामस्तत्रा देपणं तं तु रुक्म्यजयत्तत्र कारिङ्गप्राहसद्बलम् दन्तान् सन्दर्शयन्नुच्चैर्नाम्रस्यन्तद्धलायुध ततो लक्ष्यं रुक्म्यगृह्णाद्गृहं तत्रा जयद्बलः जितवानहमिद्याः रुक्मिकैतवमाश्रितः मण्डुनाक्षुवित श्रीमान् समुद्रयो पर्वणि जात्यारूणाक्षोतिरुषां नर्बुदं गुलहं ग्लहमाददे तं चापे जितवान् रामो धर्मेण छलमाश्रितः रुक्मे जितं मया त्रे मे वदन्तु प्राचीनका इति तदा बले जितो ग्लः वचने वचनेनैव रुक्मी वदति वै मृषा तामानादित्य वै दर्भो दुष्टराजन्यचोदितः सङ्कर्षणं परिहसन्दभासे कालचोदितः नैवाक्षको विदायूयं गोपालावनगोचराः अक्षयदिव्यन्ति राजानो बाणैश्च न भवादृशाः रुक्मिणैव मन्मधिक्षिप्तो राजभिश्चोपहासितः क्रुद्धपरिगुमुद्यम्य जज्ञेतं निम्न संसदे कलिङ्गराजं तरसा गृहीत्वा दशमे पदे दन्तानपात यद् ग्रुद्धो यो हसन् विवृते द्विजये अन्ये विभिन्नबाहुरूशेषो रुधिरोक्षिताः राजानो दुद्रुवर्भीता बलेन परिघार्जिताः निहिते रुक्मिणीश्याडिनाब्रवी साधु साधु दुक्मिली बलयो राजन् स्नेहभङ्गभयाधरी ततो निरुद्धं शं सुर्ययावरं रथं समारोप्य यो रामादयो भोजकं तादन्तसार्हाः सिद्धाखिलार्थामधिसूजनाश्रयाः ते श्रीमद्भागवते महापुराणे पारंस्यां शयितायाम् संस्कन्धे पुत्रार्धे अनुरुद्धविवाहे रुक्मिणं रुक्मिवतो नामैकषष्टितमोऽध्यायः